गरुडपुराणम् आचारकाण्डम् अध्यायम् ट्वेन्टी नैन् हरिरुवाच त्रैलोक्यमोहिनीम् वक्ष्ये पुरुषोत्तममुख्यतम् पूजामन्त्रान् श्रीधराद्यान् धर्म पमादिदायकान् ॐ ह्रीं श्रीं क्लीं ह्रूम् ॐ नमः पुरुषोत्तम अप्रतिरूप लक्ष्मीनिवास जगत्क्षोभण सर्वस्त्री हृदयदारुणम् त्रिभुवनमदोन्मादनकर सुरासुरमनुजसुन्दरीम् जनमनांसि तापय तापय शोषय शोषय मारय मारयस्तम्भयस्तम्भय द्रावय द्रावय आकर्षय आकर्षय परम सुभद सर्वसौभाग्यकरं सर्वकामप्रदम् अमुकम् हनहनचक्रेण गदया खड्गेण सर्वबाणार्भिन्दि काशेन कुट्टकुट्ट अङ्कुशेन ताडय ताडय करुतरुकिं तिष्ठसि तारय तारय यावत् समीहितं मे सिद्धं भवति ह्रीं फट् नमः ॐ श्रीं श्रीधराय त्रैलोक्यमोहनाय नमः क्लीं पुरुषोत्तमाय त्रैलोक्यमोहनाय नमः ॐ विष्णवे त्रैलोक्यमोहनाय नमः ॐ श्रीं क्लीं त्रैलोक्यमोहनाय विष्णवे नमः त्रैलोक्यमोहना मन्त्रा सर्वे सर्वार्थसाधकाः सर्वे चिन्त्या पृथग् वापि व्या सात् सङ्क्षेपदो भव आसनमूर्तिमन्त्रम् च ओमाद्यङ्क का षडङ्कम् चक्रम् गताम् च खड्गम् च मुत्सलम् शङ्ख शर्कम् शरम्पाक्ष्यम् चाङ्गुष्यम् च लक्ष्मीगरुड संयुधम् विश्वसनम् विस्तरन् द्वानरः यदि श्रीगारूडे महापुराणे पूर्वकाण्डे प्रथमाशाख्ये आचार्यकाण्डे त्रैलोक्यमोकिनीपूजन पूजन नामैको न त्रिंशोऽध्यायः ओ